अथ त्रयोविंशः सर्गः निमित्तारिनिमित्तो दृष्ट्वा लक्ष्मणपूर्वजः सौमित्रिम् सम्परिष्वज्य इदम् इदं परिगृह्योदकम् शीतम् वनानि फलवन्ति च बलौघम् संविभज्येमम् व्यूह्य तिष्ठेम लक्ष्मण लोकक्षयकरम् भीमम् भयम् प्रबर्हणम् प्रवीराणा वृक्ष वानर रक्षसा वाताश्च कलुषा कम्पते च वसुंधरा। पर्वताग्राणि वेपन्ते पतन्ति च महीरुहाः मेघाः क्रव्याद सङ्काशाः परुषाः परुषस्वनाः क्रूराः क्रूरं प्रवर्षन्ति मिश्रम् शोणितबिन्दुभिः रक्तचन्दन सङ्काशा सन्ध्या ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् दीनादीनस्वराः क्रूराः सर्वतो मृगपक्षिणः प्रत्यादित्यम् विनर्दन्ति जनयन्तो महद्भयम् रजन्याम प्रकाशस्तु सन्तापयति चन्द्रमाः कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः ह्रस्वो रूक्षो प्रशस्तश्च परिवेषस्तु लोहितः आदित्ये विमले नीलम् लक्ष्म लक्ष्मण दृश्यते रजसा महता चापि नक्षत्राणि हतानि च युगान्तमिव लोकानाम् पश्य शंसन्ति लक्ष्मणा काकाश्येनास्तथानि च गरुध्राः परिपतन्ति च शिवाश्चाप्यशुभान्नादान्नदन्ति सुमहाभयान् शैलैः शूलैश्च खड्गैश्च विमुक्तैः कपि राक्षसैः भविष्यत्यावृता भूमिर्मांस शोणितकर्दमा क्षिप्रमद्यैव दुर्धर्षाम् पुरीम् रावणपालिताम् अभियामजवेनैव सर्वैर्हरिभिरावृता इत्येवमुक्त्वा धम्बी स रामः सङ्ग्रामधर्षणः प्रतस्थे पुरतो रामोऽ लङ्कामभिमुखो विभुः स विभीषणसुग्रीवाः सर्वे ते वाणरऋषभाः प्रतस्थिरे विनर्दन्तो धृतानां विषतां वधे राघवस्य प्रियार्थम् तु सुतराम् वीर्यशालिना हरीणाम् कर्म चेष्टाभिस्तुतोष रघुनन्दनः वाल्मीकिये श्रीमद् वाल आदिकाव्ये युद्धकाण्डे त्रयोविंशः